श्रीमन श्रीमन्महाभारतम् आदिपर्वणि जतुगृहपर्वणि गङ्गोत्तरे अष्टचत्वारिंशदधिकशतमो अध्यायः वैशम्पायन उवाच एतस्मिन्नेव काले तु यथा सम्प्रत्ययम् कविः विदुरः प्रेषयामास तद्वनं पुरुषम् शुचिम् स गत्वा तु यथोद्देशम् पाण्डवान् ददृशेवने जनन्यासह कौरव्यमापयानान् नदीजलं विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः ततस्तस्यापि चारेण चेष्टितं पापचेतसः ततः प्रवासितो विद्वान् विदुरेण नरस्तदा पार्थानां दर्शयामास मनोमारुतगामिनीम् सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीं शिवे भागीरथीतीरे नरैर्विस्रम्भिः कृतां ततः पुनरथोवाच ज्ञापकं पूर्वचोदितं युधिष्ठिरनिबोधेदं संज्ञार्थं वचनं कवेह कक्षघ्नः शिशिरघ्नश्च महाकक्षेऽभिलौकसः न हन्तीत्येवमात्मानम् यो रक्षति स जीवति तेन माम् प्रेषितम् विद्धि विश्वस्तम् संज्ञयानया भूयश्चैवाह क्षत्ता विदुर सर्वतोऽर्थवित् कर्णं दुर्योधनम् चैव भ्रातृभिः सहितं रणे शकुनिम् चैव कौन्तेय विजेतासि संशयः इयम् वारिपथे युक्ता नौरप्सु सुखगामिनी मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः अथ तान् व्यस्थितान् दृष्ट्वा सः मात्रा नरोत्तमान् नावमारोप्य गङ्गायां प्रथितान् अब्रवीत्पुनः विदुरो मूर्ध्म्युपाघ्राय परिष्वज्य वचो मुहुः अरिष्टं गच्छता व्यग्राः पन्थानमिति चाब्रवीत् इत्युक्त्वा स तु तान् वीरान् पुमान् विदुरचोदितः तारयामास राजेन्द्रगङ्गां नावानरर्षभान् तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः जयाशिषः प्रयुज्याथ यथा गतमगाधि सह पाण्डवाश्च महात्मानः प्रतिसंदिश्य वैकवेः गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः महाभारते, श्रीम्मते आदिपर्व जतुगृहपर्वि गंगोत्तरणे अष्ट्रिशदतमोध्याय